एकपञ्चाशत्तमोऽध्यायः सौतिर्वाच एवमुक्त्वा ततः श्रीमान् मन्त्रिभिश्चानुमोदितः आरुरोह प्रतिज्ञां सः सर्पसत्राय पार्थिव ब्रह्मन् राजा राजापारक्षितस्तदा पुरोहितमथाहूय ऋत्विजो वसुधाधिप अब्रवीत् वाक्यसम्पन्नः कार्य सम्पत्करम् वचः यो मे हिंसितवान्स्तातम् तद्भवन्तो ब्रुवन्तु मे अपि येन पन्नगम् तक्षकम् संप्रदीप्तेग्नौ प्रक्षिपेयं स यथा तेन पिता मह्यम् पूर्वम् दग्धो विषाग्निना तथाहमपि तम् पापम् दग्धुमिच्छामि पन्नगम् ऋत्विज ऊचुः अस्ति राजन्महत्सत्रम् त्वदर्थम् देव निर्मितम् सर्पसत्रमिति पुराणे परिपठ्यते आहर्ता तस्य सत्रस्य त्वन्नान्योऽस्ति इति पौराणिकाः प्राहुरस्माकम् चास्ति सक्रतुः एवमुक्तस्य राजर्षिर्मेने दग्धम् हि तक्षकम् हुताशनमुखे दीप्ते प्रविष्टमिति सत्तम ततो ब्रवीन् मन्त्र राजा ब्राह्मणांस्तदा आहरिष्यामि तत्सत्रम् सम्भाराः सम्भ्रियन्तु मे ततस्ते रुत्विजस्तस्य शास्त्रतो द्विज सत्तम तम् देशम् मापयामासुर्यज्ञायतन कारणात् यथावद् सर्वे बुद्धेः परङ्गताः रुद्ध्या परमया युक्तमिष्टम् द्विजगणैर्युतम् प्रभूत धनधान्याढ्यम् ऋत्विग्भिः सुनिषेवितम् निर्माय चापि विधिवद् यज्ञायतनमीप्सितम् राजानम् दीक्षयामासुः सर्पसत्रातदा इदम् चासीत् तत्र पूर्वम् सर्पसत्रे भविष्यति निमित्तम् महदुत्पन्नम् यज्ञविघ्नकरम् तदा यज्ञस्यायतने तस्मिन् क्रियमाणे वचोऽब्रवीत् स्थपितर्बुद्धिसम्पन्नो वास्तु विद्याविशारदः इत्यब्रवीत् सूत्रधारः सूतः यस्मिन् देशे च काले च मापनेयम् प्रवर्तिता ब्राह्मणम् कारणम् कृत्वा नायम् संस्थास्यते क्रतु एतच्छ्रुत्वा तु राजासौ प्राग्दीक्षाकालमब्रवीत् क्षत्तारम् नहिमे कश्चिदज्ञातः प्रविशेदिति इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि सर्पसत्रोपक्रमे एकपञ्चाशत्तमोऽध्यायः